मुद्गलपुराणं खण्डं तु एकदन्तचरितम् अध्यायं ट्वेण्टिसिक्स् श्रीगणेशाय नमः मुद्गल उवाच तदन्वये च सम्भूतो बर्हिषो नाम पार्थिवः धर्मात्मा शस्त्रधारी स प्रजानां सयत्नान्विधाञ्चक्रे वी कर्ममार्गपरायणः प्राचीनाग्रपुशैः सर्वाञ्छादयामास मेदिनी मृगयार्थं वनं यादः समुद्रतनयां तदा उपये मे स भूपालस्तस्याम् सर्वे समानवर्णांस्ते समाचारा प्रजापदे समानमानसास्तेन नाम्नाख्यादा प्रचेतसः प्रजार्थं ते समुद्रस्य समीपे तपसि स्थिताः सरोनारायणाख्यं च तत्र विष्णुमपूजयन् प्राचीनबर्हिराजर्षिं स्वगृहे कर्मकारकं स्थितं ज्ञात्वा समायाधो नारदकरुणानिधिः तं राजा पूजयद्भक्त्या कृताञ्जलिपुटस्थितः तमुवाच मुनिश्रेष्ठो राजानं ज्ञानदायकः नारद उवाच किं राजन्कर्मणा ते वै भविष्यति प्रभो बन्धतं कर्मवेदेषु प्रोक्तं तन्नात्र संशयः यज्ञैर्नानाविधैः सर्वं कृतं कर्मत्वया महत घोरम् हिंसात्मकम् नित्यम् नानाः पशुवधाश्रयं प्रकताः पशवः प्रदीक्षन्त ओजसा वधार्थं तव चात्यन्तं क्रोधयुक्दानसंशयः अधुना वृद्धरूपस्त्वम् त्यक्त्वा कर्ममहीपदे कर्माङ्गुराग्निरूपं वैज्ञानमार्गं समाश्रय मुद्गल उवाच नारदस्य वच श्रुत्वा विस्मितः स नृपोऽ ब्रवीद तं पुनस्तस्य भावज्ञो विनयेन समन्वितः प्राचीनबर्हिरुवाच अहं कर्मपरं भावं जानामि मुनिषत्तमा कर्मणा लभते जन्तुर्जानामि न च संशयः वदज्ञानं विभो किं तत्कर्म मूलनिकृन्दनं दयया च दया मां तारय भवार्णवाद तस्य तद्वचनं श्रुत्वा ज्ञात्वा कर्मपरायणं कर्मणा शुद्धरूपं तमुवाच मुनिसप्तमः नारद उवाच ज्ञानं योगमयं विधि योगो भेदात्मकं स्मृतः ब्रह्मणि ब्रह्मभूतश्च योगी योगेन जायते देहेऽस्मिन् पश्य राजेन्द्रबिम्बं गणपदे स्मृतं मोहयुक्तं तदाकार्यं जीवरूपं हृदि पञ्चधा चित्तवृत्तिश्च वर्तते नृपसत्तमा क्षिप्तामूढा च विक्षिप्तैकाग्रापि च निरोधिका यत्र क्षिप्तं नरेणैव चित्तं तज्ज्ञायदे कृदा तदेव त्वं चित्तं जानीहि पार्थिव क्षिप्तं चित्तं नरेण इदन् मूढवत्तन्न बुद्ध्यदि अन्यथा च भवेत् ज्ञानं मूढरूपं च तत् स्मृतम् मुमुक्षूणां भवेत् चित्तं विक्षिप्तं ब्रह्मलालसं न संसारसुखे मग्नं तन्न एकाग्रं सर्वभावेषु ह्यात्माकारेण संस्थितम् अन्तज्ञानेन तद्रूपं पश्येद्वै योगसेवया निरोधं देहदेहिभ्यो हीनं निर्वृदिदायकं संयोगयोगरूपान्तं लभदे योगसेवया पञ्चथा कथितं भूपचित्तं सा बुद्धिरुत्तमा जानीहि हृदयेत्तित्वा गणपेन च खेलति पञ्चथा चित्तवृत्तिर्या तत्र मोहप्रकीर्तितः स्वस्वस्थानकरूपस्थैश्चर्यरूपो मकीपते ऐश्वर्यभ्रान्तिरूपासात् सिद्धिः सर्वत्र वर्तते धर्मार्थकाममोक्षाणां ब्रह्मणः पञ्चधा स्मृता भ्रामयन्तीकभूतानि गणपेन च खेलति मयासा कथिता माया नृप नास्त्यत्र संशयः ज्ञानरूपा स्वयं बुद्धिरैश्वर्यात्सिद्धिरुच्यते तयोर्बिम्बं गणेशस्य भ्रमाढ्यं जीवसं इदं मायामयं माया सदाजादं जातं मायासौख्ये प्रलालसं बन्धयोक्तमहीपालकृति पश्य प्रकाशकम् पञ्चथा चित्तवृत्तिश्च तेन सर्वा प्रकाशिता चिन्तामणिरिधिख्यादिम् गणेशस्य वदन्त्यधः देहश्च दुर्विधप्रोक्तस्थूलः सूक्ष्मः नादरूपश्च दुर्धो वै देहेषु देहभोगस्थो देही भ्रान्त्या चतुर्विधः एकोऽपि ब्रह्म तेषां वैसोऽहं विद्धि नराधिप तद्योगे स्वद उद्धानं ब्रह्मवेदे प्रतिष्ठितं सत्यं परद उद्धानरूपं सौख्यमयं परं तयोर्योगेष्वसंवेद्यं ब्रह्म पञ्चविधं स्मृतं सत्यासत्यसमाकारनेधिभेदात्मकं परं संयोगो ब्रह्मणां यत्र योगाभेदेन शाश्वतः समाधिसुखदप्रोक्तस्वानन्द इति कथ्यते अयोगमे ददृहिदं ब्रह्मनिर्वृदिदायकं संयोगा योगयोर्नाशे योगशान्तिप्रदायकः महाराज महाराजसमूहानां पति स्मृदः समूहाब्रह्मरूपाश्च च्या ज्ञादव्या ज्ञानचक्षुषा तम्भजस्वमहीपालहृदिस्थं गणनायकं बुद्धिप्रकाशकं पूर्णं बुद्धिशं शांतिदायकं, एवमुक्त्वा महायोगी नारदो विररामः महा। सोऽभिश्रुत्वा प्रणम्या मुनिपुङ्गवम् प्राचीनबर्हिरुवाचा भो भो योगिन्दया सिन्धो तारिदोहं त्वयाधुना मत्समीपस्थिता विप्रा न जानन्दित्विदं परं नारतोऽन्तर्दते सद्यप्रयजौ गणपं स्मरन् वीणागानरतो योगी स्वेच्छाचारी सदा मात्येषु सत्वरं राज्यं वनं ययौ सोऽपि गणेशध्यानतत्परः नारदेन यथा तस्य कथितं ज्ञानमुत्तमं यथा योगं क्रमेणापि योगी गणेश गो भवद ययौ राजा गणेशे ब्रह्मरूपिणि ब्रह्मभूतो नृपश्रेष्ठकथितोऽसौ प्रजापदे प्राचीनबर्हिराजर्षेश्चरितं यः शृणोति च पठेद्वा तस्य पापं हि नाशयेत् सर्वदं भवेद् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते प्राचीनबर्हिषश्चरितं नाम षड्विंशतितमोऽध्यायः Om um...